नमस्कारः नमो नमः नमागा. नमो नमः नमो नमः सर्वेषां स्वागतम् अस्तु नमस्कारः महोदय इति कारणम् भवती भवती रेकार्डिङ्ग् श्रुतवती वा गृहे बहु गेस्ट् आगतवन्तः इदानीमेव गतवन्तः अतः अहम् अतः अस्तु चिन्ता मास्तु आरम्भं कुर्मः शृणोमि वेनि आमामाम् अस्तु अस्तु राधा भगिनी आरम्भं करोति वा प्रार्थनया आं भगिनि नमो नमः व्यास ते बुद्धे, ल्लारविन्दायतपत्रनेत्र येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः पार्थो वत्सुतिर्भोक्ता दुग्धम् गीतामृतम् महत् शान्ताकारम् भुजगशयनम् पद्मनाभम् सुरेशम् विश्वाधारं गगनसदृशम् मेघवर्णं शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनं योगिभिर्ध्यानगम्यम् वन्दे विष्णुम् भवभयहरं सर्वलोकैकनाथम् अधुना किञ्चित् वक्तव्यमस्ति मया तत्र अजत अजतद ये अच् ये अच् वर्णा सी ते शब्द अजत अजंता अच् अंता अच्छ किं नाम अच् विना भगिनी भवती वक्तुं शक्नोति वा अच् इत्युक्ते के वर्णः इति वदति वा आरभ्य च तत्र भगिनी सर्वे स्वराः सर्वे स्वराः सत्यं सर्वे स्वराः इत्युक्ते अच् वर्णः सर्वे स्वराः इत्युक्ते केचन वर्णाः वदन्तु स्वरवर्णः के के वा ऐ ओ औरुकार अपि स्वरः एव रूरूते स्वर वर्णः अच् वर्णः येषाम् येषाम् अन्ते अच् वर्णाः ते सर्वे अजन्ताः अधुना यदा अहं राम इति वदामि अन्ते किम् आगच्छति अन्ते कः वर्णः आगच्छति मीणा भगिनी अकार हा अकार अकारान्त अन्त अतः राम इति अकारान्तशब्द अधुना माला इति वदामि चेत् अन्ते किम् अन्ते कः वर्णः दीर्घ आ इत्युक्ते माला इति आकारान्तशब्दः अधुना रवि इति वदामि वदतु नदी इति वदामि भानु इति वदामि चेत् भानुकारान्त वधूः इति वदामि चेत् ऊकारः ऊ दीर्घ ऊकारान्त् इत्युक्ते यः वर्णः अन्तिमे स्थाने आगच्छति तत् अ आगच्छति चेत् अकारान्त् अगच्छति चेत् अकारान्त् इकारान्त ईकारान्त् ऊकारान्त ऊकारान्त् ऊकारान्त् एवं सर्वम् अस्ति अधुना शब्दानां वर्णक्रमः कथं भवति तस्मिन् विषये अपि अवलोकनं कुर्मः शब्दानां वर्णक्रमः कथं भवति अत्र पश्यन्तु शब्दानां वर्णक्रमः इत्युक्ते किम् एकं शब्दं स्वीकृत्य पश्यामः लिखामि अत्र शब्दः अस्ति मम शब्दः अस्ति अत्र शब्द सेना इति शब्द सेना अधुना एकमेकं भारतमहोदय भारतमहोदयन्त अहं वदामि सेना इति आकारान्तशब्दम् इत्युक्ते किम् अन्तिमे उत्तमं सेना इति वर्णक्रमे स योग ए योग न योग आ सेना अधुना योग योग मीन्स् प्लस् रैट् योग इस् प्लस् योग माता विषये वदतु योग न? आ न? न? योग आ माता हा? अधुना अत्र एकं संयुक्तवर्णः पश्यन्तु अत्र अहं लिखामि राज्य इति लिखामि कथं भवति र योग अ योग ज योग योग अ अत्र किम् अभवत् जकार यकार द्वयोः मध्ये कोऽपि स्वरः नास्ति द्वयोः मध्ये तत्र स्वरः अस्ति वा no. स्वरः नास्ति अतः ज इति संयुक्त अक्षर mm -hmm. संयुक्त संयुक्तवयम् इति वयं वदामः अधुना इतोपि एकः शब्दः पश्यन्तु अत्र कथं भवति भारत् महोदय योग र योग अ योग योग अ उत्तमम् उत्तममस्ति महोदय तत्र वकार रेफ इति वयं न वदामः रेफ रेफ इति उच्चारणमस्ति रकार एतस्य तो व योगर रेफ योगर आ, योगर त योगर आ, इती इती आ, योग अ योगत योग अ इति व्रत इति शब्दः अधुना कथं भवति महोदय स योग ऊ योग च तत् सूर्य इति अस्ति ओके योग य य अत्र एकवारं भवान सूर्य इति वदतु सारि योग र अरेव प्रथमम् आगच्छति अनन्तरं अ यथा यथा महोदय यथा वयम् उच्चारणं कुर्मः सूर्यूर्य तथैव रेफ प्रथमतः आगच्छति अधुना अस्माकं परिचितः शब्दस्वीकुर्मः क कथं भवति अस्ति कथं भवति ककार केन स्वरेण अत्र अस्ति क ऋकार अनन्तरं सत्यं अत्रापि सकार नकार द्वयोः मध्ये कोऽपि स्वरः नास्ति संयुक्तः इति क्रू ककार ऋकार महोदय अत्र रु इति रुकार पश्यन्तु प्रान्तानुसारेण केचन जनाः कृष्ण इति न वदन्ति ते कृष्ण इति वदन्ति okay. मूलतः तत् अस्माभिः किं स्मर्तव्यं तत् ऋकारः अस्ति प्रान्तानुसारेण उच्चारणे तत्र भेदाः सन्ति केचन जनाः कृष्ण कृष्ण इति वदन्ति परन्तु मूलतः तत्र ऋकार एव अस्ति हा अधुना महोदय एतत् ऋषि इति शब्दः कथं भवति ऋकार स्वयं पूर्ण स्वराः स्वयं राजते व्यञ्जनानां कृते उच्चारणार्थं स्वरस्य आधारेण अकार भवेत् अनन्तरम् आव परन्तु स्वराणां किमस्ति स्वयं राजते स्वयं पूर्ण स्वयं राजते आधारस्य कापि आधारस्य आवश्यकता एव नास्ति ऋकार इ वदतु शकार श, इ, देन ऋषि इति अस्ति खलु ऋषि ऋषि ऋषि अधुना क्षम्यता पठतु शब्द उत्तममस्ति महोदय गकारवकारयुक्ताक्षर ऋग्वेद रु, गकार रु स्वयं पूर्ण स्वराणां कृते तस्य अन्यस्वरस्य आधारस्य कापि आवश्यकता नास्ति अधुना अहम् एतत् अग्नि इति लिखामि तत् कथं भवति महोदय अग्नि अग्नि इकारान्त अस्तु उत्तमं महोदय उत्तममस्ति धन्यवादाः एतत् शब्दं शब्दानां वर्णक्रमः अधुना पठामः पुस्तकं प्रति गच्छामः एतत् सर्वं पुस्तके अपि अस्ति वयं पठामः तत् किमस्ति तत् गीतासोपानम् <laughs> अस्माकं पृष्ठक्र पृष्ठक्रमाङ्कः प्रचलति त्रित्रिंशत् इति दृश्यते दृश्यते त्रीणि सर्वेषां हा हा अगस्ट् महोदये भवान् पठति वा अवधेयं ततः आरभ्य वदे uh. okay. सावधानं mm. पठत mm. अवगच्छ वयम् mm. आचार्यः mm. mm. शूरः घोषः mm. कविः mm. गुरुः पिता mm. mm. इत्येतादृशान् पुलिङ्गशब्द hmm. पुंलिङ्गशब्दान् पुं शब्दान् hmm. कृपा सेना चिन्ता hmm. मतिः नारी माता hmm. इति एतादृशान् hmm. स्त्रीलिङ्गत्रीलिङ्गशब्दान् लिंग, hmm. बलं वचनं वाक्यम् hmm. वचनमनन्तरं hmm. वचनमित्यनन्तरं एक पुनः एकवारं पठतु वचनं वचनं वा, वाक्यं वाक्यं वारि वारितादृशान् hmm. hmm. नपुंसकलिङ्गशब्दान् च ज्ञातवन्तः hmm. hmm. hmm. hmm. अस्मिन् पाठे तेषां शब्दानां वर्णक्रमाणां परिचयं प्राप्तुमः आचार्यः इति शब्दस्य वर्णक्रमः एवम् अस्ति योग योग आ योग रेफ योगा, या अनन्तरं विसर्ग योग विसर्ग अत्रापि पश्यतु आचार्य अहं वारं वारं वदामि संस्कृतभाषायां तत्र वैज्ञानिकता दृश्यते यथा उच्चारणं तथैव लेखनम् आचार्य रेफ पूर्वम् आगच्छति अतः आ च आ रेफ अनन्तरं यकार अनन्तरम् अकार अनन्तरं विश आचार्यः तादृशम् एव लेखनं भवेत् अग्रिमे पठतु आगोष्ठमहोदय अन्येषामपि अन्येषामपि शब्दानां पश्यता गुरुः योग उ योग रेफ योग उ योग अनुस्वार विसर्गः विसर्गः पिता प योग योग त योग आ योग आ वयं वयोग आ योग योग आ योग म वचनं वयोग आ योग च योग आ योग न योग आ योगमकार योग ई योग योग आ योग न योग ई उत्तमम् उत्तममस्ति महोदय धन्यवादः धन्यवादः अत्र पश्यन्तु सर्वे आचार्यः इति यत् विसर्गः दृश्यते तत् किमस्ति प्रथमाविभक्तेः एकवचनरूपम् यथा वयं वदामः रामः रामो रामः रामः इति प्रथमा एकवचनम् शब्दस्य मूलं तु आचार्य इति प्रातिपदिकम् अत्र मूलतः शब्द मूलमे प्रातिपतिप शब्दस्य मूलं मूल मूलम कि आचार्य मूलम प्रथमा विभक् एक कि आचार्य गुरु प्रथमा विभक्वनूप परंतु मूलत तो प्रातिपक गुरु की प्रातिप कवि इति प्रातिपदिकं हरी इति प्रातिपदिकं माला इति प्रातिपदिकं प्रथमाविभक्तान्तरूपाणि भिन्नप्रकाराणि प्रचलन्ति परन्तु शब्दस्य मूलः इत्युक्ते प्रातिपदिकं किं नाम प्रातिपदिकं शब्दस्य मूलम् इति प्रातिपदिकं तत् अग्रिमे अस्ति शब्दानां प्रातिपदिकम् अनन्तरं प्रथमाविभक्तेः एकवचनान्त इति दत्तमस्ति पठामः जयन्ती भगिनी भवती पठति वा भारत महोदय पृच्छतु प्रातिपदिकं प्रातिपदिकं धातु इत्युक्ते पश्यन्तु गुड् क्वशन् अत्र एकनिमेषं पश्यामः धातु इति किम? धातुक्त वाला गम इति इति इति धातु, धातु, वद धातु, भू वद सर्वम धातु धा धातु वद्द धा एक धापाठातु सही किम धातूना योजन इति? गंतूप लट्ल लोट्ल मेलन पर परंट प्रातिपद प्रातिपद किंतीपदी शब्द से मूलूप यदा अहम वादा गु गम ततयांतूप गतः इति वदामि चेत् झटिति मनसि आगच्छति गतः इत्युक्ते प्रथमा विभक्ति एकवचनान्तरूपम् प्रातिपदिकम् इति शब्दस्य मूलरूपम् गच्छति इत्युक्ते किं पद धातु गच्छति इति पद अस्ति तिङ्प्रत्ययस्य मेलनेन तस्य मूलरूपं किमस्ति गम् ततस्ति धातु परन्तु प्रातिपदिकस्य मूलरूपं शब्दस्य मूलरूपं गतः शब्दस्य मूलरूपं किं प्रातिपदिकम् okay. अस्तु yeah, स्पष्टमस्ति महोदय yeah, yeah. जयन्ति भगिनी पठतु पठामि भगिनि अग्रे आचार्यः आचार्यः इति प्रथमविभक्ते एकवचनरूपं शब्दस्य मूलं तु आचार्य इति प्रातिपदिकम् एकमेव गुरुः इति प्रथमविभक्ते एकवचनरूपं शब्दस्य मूलं तु गुरु इति प्रातिपदिकम् अग्रे अग्रे लिखितानां शब्दानां प्रातिपदिकम् प्रथमविपक्ते एकवचनरूपं च सावधानतया परिशीलय परिशीलयत प्रातिपदिकं पुरुष इति प्रथमविपक्ते एकवचनरूपं पुरुषः पितृ इति प्रातिपदिकं पिता इति प्रथमविपक्ते एकवचनम् अरि इति प्रातिपदिकम् अरिः इति प्रथमविपक्ते एकवचनरूपं प्रीति इति प्रातिपदिकं प्रीतिः इति प्रथमविपक्ते एकवचनरूपं माया इति प्रथम प्रातिपदिकं माया इति प्रथमविभक्ते एकवचनरूपं राज्य इति प्रातिपदिकं राज्यम् इति प्रथमविपक्ते एकवचनरूपं बल इति प्रातिपदिकं बलम् इति प्रथमविपक्ते एकवचनरूपम् प्रातिपदिकस्य अन्ते यः वर्णः अस्ति शब्दः तदन्तः भवति यथा केशव ककारं योगे एकारं योगे शकारं योगे अकारं योगे, अकारं योगे वकारं योगे अकारम् अन् अन्तिमवर्णः आ इति अस्ति अतः केशवशब्दः आ अकारान्तः इति hmm. ah, एकनिमिषम् अत्र hmm. पशन सर पुनः एक प्रातिपद यहातम पृवां त्र शब मगत पुषा अस्त शब्द परंतु मूलूपम कि शब्द से मूलूपुर तसर्ग नसर्ग कदा आगछति यदा अहम प्रथमा विभक्चना साधयामी चे तुषा अनम वना पुषा गुषा पठती पुषा वदती कित मवक्षा का प्रथमा विभक् एककवचना परंतु पुष्प से मूलूपम यतिपदी पुष मयाव राज्य राज्य की प्राप्त बल बल वनम वन इति प्रातिकदिकम् पुष्पम् पुष्प इति प्रातिकलम् एवं सर्वम् अस्ति अनन्तरं यथा भगिनी पठितवती तत् अन्तिमवर्ण अकार अस्ति चेत् अकारान्तम् तत्र अकारान्तः शब्दः इति वक्तुं केशव केशवशब्दः अकारान्तः शब्दः अस्तु पठतु भगिनी अग्रिमे जयन्ति भगिनी कवि कवि ककारं योगे अकारं योगे वकारं योगे इकारम् अन्तिमवर्णः इ अस्ति अतः कविशब्दः इकारान्तः माया मकारम् योगे आकारम् योगे यकारम् योगे आकारम् अन्तिमवर्णः आ अस्ति अतः मायाशब्दः आकारान्तः नारी नकारम् योगे आकारम् योगे रेपम् योगे ईकारम् अन्तिमवर्णः इ अस्ति अतः नारीशब्दः ईकारान्तः पितृ पकारम् योगे इकारं योगे तकारम् योगे ऋकारम् अन्तिमवर्णः ऋकार अस्ति अतः पितृशब्दः ऋकारान्तः एतेषाम् प्रातिपदिकानाम् वर्णक्रमम् लिखित्वा अन्त अंत, अन्तर्निर्णयम् अंत, कुरुत यदा कृप ककारं योगे रिकारं योगे मीनिङ्ग् रिकारं योगे पकारं योगे अकारम् अकारान्तः तत्र सर्वेषाम् एकं सर्वेषां पृच्छामि तत्र एतत् सर्वं आ, आँगे। आँगे। सर्वे गृहाभ्यासरूपेण कर्तुं शक्नुवन्ति वा अत्री स्क्रीन्शाट् स्वीकृत्य गणे स्थापयामि सर्वे तत् गृहाभ्यासरूपेण एकवारं लिखन्तु Uh, जयन्ति भगिनी तत् शूरो शङ्खो एकवारं वदतु अनन्तरं सर्वे कुर्वन्ति षकारं योगे ऊकारं योगे रेपा रेपं योगे अकारम् अतः अकारान्तशब्दः शङ्ख इति षकारं योगे अकारं योगे ऊकारं योगे खकार योगे अकारम् अतः अकारान्तः शब्दः शङ्कः इति अकारान्तशब्दः एतः पर्याप्तं तत् सर्वे किञ्चित् गृहाभ्यासरूपेण एतत् सर्वं कुर्वन्तु हा अहं स्क्रीन्शाट् तत्र स्थापयामि गणे हा सर्वे कृपया सर्वे लिखन्तु हा कथमस्ति चेत् तत् अन्तिमः वर्ण अनन्तरम् अकारान्त् वा अकारान्त् वा रुकारान्त् वा एवं सर्वं कुर्वन्तु हा mm. तत्र mm. प्रीतिपर्यन्तमस्ति अनन्तरं mm. शस्त्र भगिनी एकवारं शस्त्र एतस्य वदति वा ah, शस्त्रक योगे अकारं योगे सकारं योगे रेपं योगे आ, तत्सेक लिखं कथमस्े शब्द लेखन कुरंत सर्वे अन किीय तर्णक अकारात शब्द व इकारात शब्द वैसे एक लेखनम सर्वे क अंतिम पटेल दे प्रेशित गणे गणे स्थ्याभ्यासूपेणे कुरंत अतिम वाक्यमस् पठती वेषु सर्व शबू अंतिम वर्ण स्वर अकार आकार इकार इकार उकार ऊकार ऋ ऋ ऋ ऋ ऋकार एकार ऐकार ऊकार औकार एव अस्ति स्वराक्षराणाम् अच् इति नाम अतः एते सर्वे शब्दाः अजन्ताः अच् अन्ते यस्य सः अजन्त अजन्तः अच् अन्ते यस्य सः अजन्तः अधुना मम एकः प्रश्नः अच् अन्त कथं तत् अजन्तचकारस्य जकार कथम् अभवत् mm. अजन्त इति न लिखितमस्ति खलु आं बेनि जश्वसन्धि भवति खलु तत्र जश्वसन्धि इति अस्ति सर्वे जानन्ति वा सर्वे जानन्ति कोवितःपर्यन्तं पठितवन्तः बे अतः तत्र अस्ति का कः उक्तवान् न जानाति इति राधा हा पश्यन्तु राधा तत्र एकम्पल् ऐ विल् गिव् यु वन् सिम्पल् फ़ार्म्युला ऑ जस्व सन्धि देट् इस् ऐ टेल् मै स्टुडेण्ट्स् दिस् इस् नोट् अ जनरलैस् संथिङ्ग् विच् ऐ एम् टेलिङ्ग् परन्तु कथं स्मरणे कथं भवेत् इति लिखित्वा एव दर्श्यामि तत्र जस्त्व सन्धि कथं स्मरणे भवेत् अस्माकं तत् अत्र वन् फिल्मी साङ्ग् यु मस् बि नोयिङ्ग् वन् टु का फोर् एण्ड् हियर् वट् डु यु हौ टु म्बर् वन् का त्री वे वन् का त्री वन् कात्री टु कात्री त्री कात्री फोर् कात्री एण्ड् सोन् इत्युक्ते जष्यवर्णा जष्वर्णा इत्युक्ते वर्गीयवर्णेषु तत्र कवर्ग पवर्ग एवम् अस्ति खलु कवर्ग पवर्ग तवर्ग सर्वेषां कृते तृतीयवर्णः यः अस्ति तत् जश् इति उच्यते तृतीयः वर्ण जश् इत्युक्ते तृतीयः वर्णः अधुना क वर्गे भवती एव वदतु क वर्गे तृतीयः वर्णः कः ग अनन्तरं च वर्गे तृतीयवर्णः कः च अधुना कवर्गे अधुना पवर्गे पफ इत्युक्ते तृतीयः वर्णः परिवर्तनं कुत्र भवति तृतीयः वर्णः अधुना अस्माकम् अजन्त इति शब्दः अन्त इति वदामि अच्च इत्युक्ते किं भवति अच्च अन्त सन्धि कथं भवति अच् युग अन्त वन्कात्रि च इत्युक्ते प्रथमः वर्ण वन्कात्रि इत्युक्ते चकार जकार okay. yeah. अधुना वदामि अहम् अत्र अनुष्टुप्छन्दः भवती जानाति अनुष्टुप्छन्द अनुष्टुप् अनुष्टुप् छन्दः कोविदा पठति पठ अप अनुष्टुप्छन्दः इति भवति अनुष्टुप् छन्दः तद् इति अस् इति अस्ति चेत् एवं किं भवति तकारस्य तकारस्य किं भवति वन्का त्रि तदा तद् तदैव अस्तु प्रथमवर्णस्य तृतीयवर्ण वन्का त्रि इति सिम्पल् फार्मुला देट् इस् जश्वसन् स्पष्टमस्ति भगिनि स्पष्टमस्ति अस्तु तत् सर्वे एतत् सर्वं कुर्वन् कुत्र अस्ति एतत् सर्वं कुर्वन्तु हा आ, हम अहं मन्ये प्रेषितवती अत्र एकवारं पश्यन्तु सर्वे गणे अस्ति अस्ति तत्र अहं प्रेषितवती सर्वे कृपया पूरयन्तु तत् अधुना तत्र अग्रिमे गच्छामः तत्र नूतन विषय नूतन पाठ पर तस् आवश्यक मतु पर्याप्त धन्यवाद स्वागत एवं सर्वस्त विषय भिन्न प्रकारे प्रथम पठन कू अन व्यम उपहार उपहारगृह दृश्य है पश्यु अपहारगृह त्राहक अस्थ अस्त अवो मध्ये संभाषण प्रचल कथमेत पशा अधुना भारतमोदय ग्राहक पठती वा भगिनी वितारकः ग्राहकः आगस्ट् महोदय भारतमहोदय आरम्भं करोतु वितारकः भोः किम् आवश्यकम् ग्राहकः काफी आवश्यकम् तारकः जलम् आवश्यकं किम् अस्तु काफी आवश्यकं hmm. स्वीकरोतु hmm. किञ्चित् शर्करा स्वीकरोतु पुनः आवश्यकम् वा पर्याप्तं पुनः मास्तु hmm. तत् तालिकायां यत् अस्ति तत् पठतु भरत्महोदय आवश्यकम् oh, आवश्यकं मास्तु पर्याप्तम् <laughs> इत्युक्ते नूतनः शब्दः तत्र आवश्यकं किम् आवश्यकं ग्राहकः वदति काफी आवश्यकं तत् ग्राहकः अनन्तरं जलम् इति प्रश्ने सति जलम् आवश्यकं किम् इति प्रश्ने सति ग्राहकः वदति मास्तु मास। इति न आवश्यकं मास्तु हा जलं न आवश्यकं जलं मास्तु काफी आवश्यकम् अनन्तरं पुनः आवश्यकं वा शर्करा शर्करायाः योजनेन अनन्तरं वितारकः पृच्छति पुनः आवश्यकं वा इत्युक्ते इतनी शर्करा आवश्यकी वाला ग्राहक वाली सफिशिये नूत शब्द तवश्यक इदानम अस्ीय अस्मा एक अत्र मम पुरतः अस्ति तदेकवारं दर्शयामि भगिनी राधा भगिनी भगिनी तत्र पश्यन्तु पाणिनि महेश्वरसूत्राणि ऐ उ रुल्लुक ए औङ् ऐ औच् हयवरटलण यमङ्गणनं जभै घदश् जबगणदश् जश् आरम्भे जवर्ण अनन्तरम् अन्तिमतः जश् तो जकार च छ बकार क ख ग सो दिस् इस् द आर्डर् टु बि फालो जष् वर्ण जबगडदश् इति तृतीयः वर्णः जबगडदश् अस्तु अधुना पुस्त पुस्तकं प्रति गच्छामः अत्र पश्यन्तु माते सङ्गोस्तु माते सङ्गोस्तु इति श्लोकः अस्ति तस्य अध्ययनम् अनन्तरं वयं कुर्मः तत्र श्लोकस्य अन्तिमः चरणं माते सङ्गोस्तु माते सङ्गोस्तु कर्मणि इति अस्ति तत् पश्यामः अनन्तरं परन्तु अस्माकं पठनबिन्दवः आवश्यकं मास्तु पर्याप्तं धन्यवादः स्वागतं पठामः अधुना uh, वीणा भगिनी वीणाभगिनी गीताभगिनी पठितुं शक्नोति वा गीताभगिनी अस्ति खलु अत्र हा गीता हा भगिनी हा गीताभगिनी आचार्यः भवति वीणाभगिनी अशोकः पठनं करोतु अनन्तरं प्रकाशः अपि तत्र अस्ति तत् जयन्तीभगिनी प्रकाशः भवति नमो नमः अद्य ीतापठनम् आवश्यकं किम् भगिनि अहम् अशोक वा अशोकः ओके, ओके। आम् आवश्यकं निश्चयेन आवश्यकम् आचार्य आवश्यकम् आचार्य गीतापठनार्थं किं किम् आवश्यकम् गीतापुस्तकम् आवश्यकम् तत्र अनिलः आगच्छति तत् अनिलः भारतमहोदये पठतु अनिलः ओके okay, अनिलः <laughs> लिपिज्ञानम् आवश्यकं किम् आं लिपिज्ञानम् आवश्यकम् <laughs> कृष्णफलकम् आवश्यकं किम् कृष्णफलकं मास्तु मम आचरणदोषः अस्ति भवतः साहाय्यम् आवश्यकम् आचार्य मम उच्चारणदोषः अस्ति सारि सारि बेनि क्लेश सारि उच्चारणदोषः अस्ति भवतः साहाय्यम् आवश्यकम् आचार्य यं मास्तु अहं mm. साहाय्य साहाय्यं करोमि श्लोकानां ah. कण्ठस्थीकरणम् आवश्यकं किं mm. मास्तु प्रतिदिनं पारायणं पर्याप्तं पर्याप्तं mm. तेन mm. स्वयमे स्वयमेव श्लोकाः कण्ठस्थाः भवन्ति भवतः गीतापुस्तकम् आवश्यकं किम् मम मास्तु गोविन्दस्य आवश्यकं मम गृहे व्याख्यानसहितं पुस्तकम् अस्ति आनयामि किम् मास्तु मूलमात्रं पर्याप्तम् अस्तु आचार्य धन्यवादः स्वागतम् तत्र पश्य किं किं भवति तत्र आचार्यः वदति अद्य गीतापठनम् आवश्यकं किम् अनन्तरम् आवश्यकम् इति शब्दः अशोकः वदति निश्चयेन आवश्यकम् गीतापठनस्य कृते किं किम् आवश्यकं गीतापुस्तकम् आवश्यकं लिपिज्ञानम् आवश्यकं लिपिज्ञानम् इत्युक्ते अनन्तरं कृष्णफलकम् आवश्यकमस्ति वा न आवश्यकं न आवश्यकं कृष्णफलकम् इत्युक्ते ब्लाक्बोर्ड् न आवश्यकम् तत् अनन्तरं गीतापठनार्थं गीतायाः सम्यक् उच्च उच्चारणार्थम् आचार्यस्य आवश्यकता आचार्य अस्माकं साहाय्यं करोति उच्चारणम् आवश्यकम् उच्चारणार्थमेव उच्चारणार्थं तत् साहाय्य साहाय्यम् आवश्यकम् तत् भवन्तः सर्वे जानन्ति वा न सन्था इति अस्ति खलु एकं कथं पठनं करणीयं तत् सन्था इति गुरुकुले तत् सन्था इत्युक्ते तमिल् मध्ये सन्दे इति उक्त टु टैम्स् आचार्य वेदपारायणं करोति वेद करोति तदा शिष्यः ऐ मीन् प्रति शब्दं द्वि द्विवारं वदनीयं तदनन्तरम् अर्धवाक्यं वदनीयं तदन्त पूरिवाक् पू पूर्णवाक्यं वदनीयम् एकपक्षम् एकपक्षं पूरीकरणीयं तदनन्तरं कण्ठस्थी भवति कण्ठस्थीकरणं भवति बेनि सत्यं सत्यं तदेव अनुसरामः आचार्य साहाय्यम् आवश्यकम् कण्ठस्थीकरणं कथं करणीयम् एकवारं तत्र किमपि न करणीयं केवलं एकम दिनम स्वीकृत्य अहं कण्ठस्थीकरणमेव करोमि तेन कण्ठस्थीकरणं न भवति वारं, वारं तस्य पुनः स्मारणं पुनः पुनः उच्चारणं भवेत् तत्र आचार्यस्य साहाय्यम् आवश्यकम् अनन्तरम् आचार्य वदति मास्तु भयं मा कुर्वन्तु भयं न भवेत् इत्युक्ते भयं मास्तु अहं सायं करोमि करोमि इति वदति ह अनन्तरं प्रतिदिनं पारायणं पर्याप्तं पर्याप्तं प्रतिदिनं पारायणम् एकस्मिन् दिने कण्ठस्थीकरणं सर्वेषां श्लोकानां कण्ठस्थीकरणम् इति मास्तु प्रतिदिनं दिने दिने पारायणम् ठन पर्याप्त तेना आचार्य स्वयम श्लोका कंठस्था स्वयम आग्छति मनसी स्वयं तस् दृढ़ीकरण अन गीतापुस्तक क्य कीतापुस्त आवश्यकता अस्सी तत् प्रकाश वजती मम समी व्याख्यास पुस्तकमस्ती परन्तु आचार्यः इदानीं व्याख्यानम् इत्युक्ते स्पष्टीकरणम् प्रत्येकस्य श्लोकस्य स्पष्टीकरणम् इत्युक्ते व्याख्यानम् आचार्यः वदति व्याख्यानस्य इदानीम् आवश्यकता नास्ति मास्तु मूलमात्रं पर्याप्तं मूलमात्रं पर्याप्तम् इत्युक्ते केवलं तत्र श्लोक श्लोकानाम् एव अध्ययनं भवेत् मूलमात्रं पर्याप्तम् अनन्तरं धन्यवादः सर्वे धन्यया धन्यवादः वदन्ति प्रकाशः धन्यवादः वदति अनन्तरम् आचार्ये वदति स्वागतं यथा आङ्ग्लभाषायां वय वदामः वेल्कम् इति थेङ्क् यू वेल्कम् तथैव धन्यवादः स्वागतम् एवमस्ति अधुना किञ्चित् वयं किं कुर्मः अभ्यासः अस्ति तत् अनन्तरम् तत् समापयामः अग्रिमे न शोचति न कंश अनन्तरं कथा कुर्मः हा अभ्यासः अस्ति हा श्रीकृष्णस्य मतानुसारं हा अधुना अगस्ट् महोदये करोति वा अभ्यासः इति श्रीकृष्णस्य मतानुगुणम् अगस्ट्महोदयः अस्ति वा नास्ति वा आगस्ट् महोदय श्रूयते वा नास्ति नास्ति वा अस्तु अतः भगिनी करोतु तत् अभ्यासः इति अभ्यासः श्रीकृष्णस्य श्रीकृष्णस्य मतानुगुणं किम् आवश्यकम् किं मास्तु इति अत्र सूचितमस्ति एतेषां साहाय्येन पृथक् पृथक् वाक्यानि वदत पृथक् वाक्यानि वदत क्लैद्यम् अत्र पश्यन्तु कथं क्लैब्यं मास्तु ah. क्लैब्यं क्लैब्यमित्युक्ते hmm. दुर् दौर्बल्यं hmm. तत् दुर्बलतायाः पुरस्कारः अस्ति वा भगवद्गीतायां न hmm. वयं दुर्बल दुर्बलाः न सबलाः सामर्थ्यसहिताः hmm. अतः hmm. क्लैब्यं मास्तु शोकः आवश्यकं वा मास्तु मास्तु वदतु शोकः मास्तु मे चिन्ता मास्तु फले अधिकारः मास्तु मास्तु कर्मणि एव अधिकार फले अधिकारः मास्तु इत्युक्ते मनसि किञ्चित् अस्ति तस्य मूढ इत्युक्ते मनसि किञ्चित् विचाराणां एकत्रीकरणं नास्ति किञ्चित् तत्र डिस्टर्बन्स् अस्ति इति विमूढभावः भ्रमिष्टरूपेण तत् मास्तु संलग्नता भवेत् मनसि अग्रिमे मास। मास्तु मास्तु युद्धम् आवश्यकम् युद्धम् आवश्यकम् इत्युक्ते तत्र युद्धं भवेत् इति इति अर्थः न प्रतिदिने अस्माकं पुरतः या समस्या अस्ति तस्य कृते युद्धम् इत्युक्ते तत्र निराश निराशभावनया यदा वयं वर्तनं कुर्मः तत् न सम्यक् यदा तत्तु आ, hmm? आ, uh, आ, आवश्यकं तत्तु करणीयमेव युद्धम् आवश्यकम् अनन्तरं सङ्गं त्यक्त्वा कर्माचरणम् इति आवश्यकम् आवश्यकम् आवश्यकम् कर्म ओ सङ्घं त्यक्त्वा कर्माचरणम् आवश्यकम् इन्द्रिय नियमन नियमनम् इन्द्रियनियमनम् आवश्यकम् योगसेवनम् आवश्यकं भगवत् भगवत् किमस्ति भगवत् भगवद्भजनम् इति अस्ति न श्रूयते राधा भगिनी भगवद्भजनम् अस्ति वा अत्र समस्या अस्ति वा ध्वनेः मध्ये मम ध्वनिः श्रूयते वा सर्वेषाम् आं भगिनि श्रूयते अत्र भगवद्भजनम् इति अस्ति अत्रापि पश्यन्तु सर्वे भगवत् तकारस्य तकार वन् कात्रि इत भगवद्भजनम् इति भवति अस्तु भगवद्भजनम् आवश्यकं वा मास्तु आवश्यकम् आवश्यकं भगवद्भजनम् आवश्यकम् अस्तु एतत् पर्याय अग्रिमे वर्गे वयं न शोचति न काङ्क्षति तत्र अभ्यासं कुर्मः एतत् श्लोकमपि वयं पश्यामः माते सङ्गोस्तु इत्युक्ते किं तदपि वयं पठामः अधुना पुस्तकं पर्याप्तं कथायाः आरम्भं कुर्मः कथा अस्ति अस्माकं पुरतः एवं दृश्यते कथा दृश्यते मीना भगिनी आरम्भं करोतु भगिनी कम् औट्सैड् सो ऐ एम् नाट् एबल् टु रीड् ऐ विल् जस्ट् ओके ओके अस्तु अस्तु भवती इदानीं श्रोतुं शक्नोति Uh, I can hear but uh, uh, I'm outside so I will be driving okay. so I will not be able to read. Sorry Bhagini. Ashtu, ashtu, ashtu. Chinta masu, chinta masu. Ashtu, ashtu. Huh? Adhuna, uh, yow, ha, uh, ashtu, ashtu. Uh... Ashtu. Ashtu. Ashtu. Ashtu. Ashtu. Ashtu. Bhagini, please Bhagini. post the <laughs> story on the WhatsApp please. Yeah, yeah, yeah, yeah, yeah, yeah, I will do that. Huh. Thank I you think. Bhagini, thank you. Huh. Huh. Uh, अस्तु किं हा गीताभगिनी भवती आरम्भं करोति वा किम व्यर्थव्ययेन आडम्बरेण वा किं व्यर्थव्ययेण आडम्बरेण वा शीर्षकस्य विषये अनन्तरं वदामि तु प्रथमं ता भवती आरम्भं करोतु किमस्ति राजा तस्य शासनम् उत, <laughs> उत् ओत्तमेव आसीत् जनाः अपि तस्य शासनस्य प्रशंसां कुर्वन्ति कुर्वन्ति स्म कदाचित् सः अचिन्तयत् मम मरणस्य अमसरम् अपि जनाः यथा माम न विस्मरेषु तथा एकं सुन्दरं स्मारकं निर् निर्मातव्यं तत् सुन्दरे मण्डपे भवेत् च मण् मण्डपः hmm. रमणीये उद्याने तिष्ठत् तिष्ठेत् hmm. उद्यानं द्रष्टुम् hmm. आगताः जनाः hmm. मण्डपं hmm. तदन्तः hmm. सितं hmm. स्मारकं च दृष्ट्वा माम, मया अनुष्ठिता अनुष्ठितानि कान्यानि च स्मरेयुः इति हा पर्याप्तं तत्र एकः नृपः आसीत् नृपस्य कथात्र. उत्तमं शासनं करोति शासनं, इत्युक्ते राज्यम् उत्तमप्रकारेण तत्र व्यवस्था व्यवस्था आसीत् जनाः अपि तस्य शासनस्य प्रशंसां कुर्वन्ति स्म कदाचित् सः अचिन्तयत् किम् अचिन्तयत् मम मरणस्य अनन्तरम् अपि जनाः माम् सदा स्मरणे स्थापयन्ति न विस्मरेयुः जनाः तत्र विधिलिङ्गलकार अस्ति जनाः न विस्मरेयुः माम् तदा किम् करणीयम् एकम् सुन्दरम् स्मारकम् तस्य निर्मितिम् अहम् करिष्यामि तत्र किं किम् अस्ति किं किम् भवेत् तत्र मण्डपम् अस्ति सुन्दरम् मण्डपम् तत्र रमणीयम् उद्यानमस्ति अनन्तरम् उद्यानम् दृष्ट्वा तत्र जनाः आगच्छन्ति आगमिष्यन्ति तत् मम तत् मण्डपम् अनन्तरम् मम स्मारकम् एतत् सर्वम् दृष्ट्वा ते वारं वारं मां आ, मया मर हाँ मैं अमरेयु विधिंगलकार तत्सव स्मारकं, स्मारकस्य तदक अहं करूं, कौन सह चिंतवा आसवत्म अस्त अग्रिमे आं मन्ये तत्र वीणा भगिनी अस्ति वा राधा भगिनी द्वयोः मध्ये एका भगिनी निर्गच्छति वीणा अस्ति वा इदानीं कनेक्षन् प्राब्लम् आसीत् तत्कारणम् अहं अस्तु राधाभगिनी पठितुं शक्नोति वा आं भगिनि एतद्विषये एतद् परिषदः पुरतः चर्चाम् अकरोत् hmm. सर्वे एतं प्रस्तावां सहर्षम् hmm. अङ्गीकृतवन्तः hmm. तावता उत्थितः प्रधानमन्त्री hmm. स्वस्य कोषात् एकं शिलाखण्ड निष्कास्य hmm. राज्ञे दर्शयन् Hmm. भो एषा शिला कदा जाता कथं hmm. प्राप्तम् इत्यादिकं वक्तुं किं शक्येत् इति अपृच्छत् किमभव hmm. तत्र स्वस्य भाषायां uh, वदति वा भगिनि आम् uh... hmm. सर्वे एतद्विषये मन्त्रिपुरतः चर्चां करोति सर्वे सभासद् प्रस्तावम् अङ्गीकृतवती चर्चां कृते अङ्गीकृतवन्त इत्युक्ते तत्समये प्रधानमन्त्री तस्य कोषात् एक शिलाखण्डं निष्कास्य वदति न श्रूयते भगिनि अन्ये श्रूयते वा न श्रूयते न श्रूयते एवं इदानीं इदा श्रूयते वदतु okay. uh, शिलाखण्डे दर्शयति पृच्छति एतत् शिलाखण्डं कदा जातः कुत्र उत्पन्न अस्ति कुत्र कुत्रतः आगत् आगति आगच्छति hmm. hmm. एतत् रूपं कथं प्राप्नुवन्ति एतत् सर्वे आ, किमपि वक्तुं शक्नोति वा इति पृच्छति सः पृच्छति पर्याप्तं योग्यम् इति स्मारकस्य विषये चिन्तनं तत्र परिवर्तते तत् प्रवर्तते स्मारकस्य विषये चिन्तनं तदा किमभवत् प्रधानमन्त्री एकं शिलाखण्डं दृष्ट्वा एवं सर्वं पृच्छति तत्र कदा जाता कुत्र उत्पन्ना कथमागता रूपं कथं प्राप्तम् एतत् सर्वं वक्तुं शक्नुमः वा वयं शक्नुमः वा शक् वक्तुं किं शक्येत् इति सः अपृच्छत् <laughs> अस्तु <अश्ण>। पर्याप्तं <laughs> धन्यवादः <आगे> अग्रिमे <वादे। laughs> जयन्तीभगिनी पठति वा आं पठामि भगिनि हा क्वापि <laughs> नदीतीरे एषा स्थिता स्यात् एतस्य शिला एतः शिला कापि नदीतीरे अहं ऐ मीन् दृष्टवन्तः प्रवाहेन आनीता सा भवता प्राप्ता इत्येव इत्ये इत्ये तावत् नदीप्रवाहेण अत्र आगता शिला इति प्रा तद् अस्माकं अस्माकं हस्ते मिलित मिलि मिलितवन्तः इति मिलितव मिलित मिलितवन्तः इति एवं वयं वक्तुं शक्नुयाम इति अहं मन्ये इति सर्वे वदन्ति ततोऽधिकं विवरणं न जा ज्ञायते इति अवदत् राजा तावदेव अहं जानामि एतस्य शिलास्य शिलायाः विषये तदामि न जानामि तत्र विवरणं न भवति एव हा अतः शिला कुत्रापि आसीत् नदीतीरे एव भवितुमर्हति अनन्तरं तत्र प्रवाहेण अस्माभिः तत् प्राप्ता अनन्तरम् इतोपि तत्र अधिकं किमपि वयं विवरणं न वक्तुं शक्नुमः इति राजा वदति अग्रे अग्रे एतस्य दशा का भवेत् इति केनापि किं ज्ञायेत् ज्ञायेत मन्त्री hmm. पुनः अपृच्छत् मन्त्री पुनः एकवारं उक्तवान् ऐ मीन् पृष्टवान् अग्रे एतस्य hmm. दशा का भवेत् इति कोऽपि जानाति वा इति hmm. दशा दशा इत्युक्ते स्थिति hmm? इतः परम् एतस्य इत स्थितिः का इति hmm. huh. अग्रिमे इत इत किं भविष्यति एतस्य स्थितिः कोपि जानाति वा कोऽपि वक्तुं शक्नोति वा इति मंत्री अपृच्छत् पृष्ट अग्रिमे तत् ज्ञातुं न शक्यम् राजा अवदत् राजा उक्तवान् तत्तु अहं न जानामि अद् वक्तुं शक्यते न शक्यते इति उक्तवान् प्रभो अस्मात् पठामि वा भगिनि तावत्पर्यन्तं तावत्पर्यन्तं पर्याप्तम् अत्र इत्युक्ते किम् अभवत् किम् अभवत् hmm. तत्र रा राजनः मनसि तत्र आसीत् hmm. मम मेघनानन्तरमपि जना hmm. जनमनसे जन, जन जनमानसे मम hmm. वारं वारं स्मरणं भवेत् इति hmm. अतः सः किं चिन्तितवान् मम स्मारकं भवेत् भव्यं hmm. स्मारकम् इति सः चिन्तितवान् परन्तु तदा सर्वेषाम् कृते सर्वे सहर्षम् अङ्गीकृतवन्त इति अस्ति खलु सर्वेषाम् कृते तत् अङ्गीकृ अङ्गीकरणम् अभवत् परन्तु एकः प्रधानमन्त्री तत्र किं किं कृतवान् शिलाखण्डम् दृष्टवान् तत्र शिलाखण्डम् कदा उत्पन्नम् अनन्तरं तत्र किञ्चित् कालानन्तरं भविष्यत्काले तस्य रूपं किं भवेत् शिलायाः दशा का भवितुमर्हति इति तदपि वयं न वक्तुं शक्नुमः एवं हा अस्तु एवं पर्याप्तं धन्यवादः भगिनी अधुना प्रभो इति आरभ्य भारत पठति पठतिवा प्रभो हा प्रभो अस्माकं जीवनमपि एतादृशम् एव ननु एषा जीवनयात्रा कदा आरब्धा इदानीं यत् शरीर स्वभावादिकं दृश्यते तत् कथं प्राप्तम् अग्रिमेषु जन्मषु अस्माकं क्रीडसि दशा स्यात् इत्यादिकं केनापि न ज्ञा ज्ञायते भगवतः कृपया एतत् शरीरादिकं प्राप्तम् अधुना वदतु किं दत्तमस्ति अत्र मंत्री मन्त्री उवाच् वाच उक्तवान् मन्त्री उक्तवान, वदति अस्माक जीवनमपि एतादृशम् एव ननुषा यथा हा वदतु वदतु जीवनयात्रा कदा आरब्धा यत् शरीर इदानीं यत् शरीर स्वभावी स्वभावादिकं mm. दृश्यते mm. तत् कथं प्राप्तं जन, जन्मसु अस्माकं क्रीडसि mm. दशा स्यात् इत्यादिकं केन केनापि न यथा शिलाखण्डस्य विषये वयं वक्तुं न शक्नुमः कदा कदा तस्य निर्माणम् अभवत् अनन्तरं भविष्यत्काले तस्य स्थितिः का भवितुम् अर्हति सर्वं वयं न वक्तुं शक्नुमः तथैव अस्माकं जीवने अपि अस्माकं जीवनयात्रा कदा आरब्धा शरीरम् अस्माकं स्वभावं स्वभावतः ये गुणाः अस्मासु सन्ति तेषां विषये कुतः एते गुणाः आगताः एतत् सर्वं वयं न वक्तुं शक्नुमः भविष्यतकाले भविष्यतकाले तु एकमासानन्तरम् एकसंवत्सरानन्तरं तत्तु भिन्नः परन्तु श्वः अपि किं भविष्यति तत् वयं न वक्तुं शक्नुमः केनापि एतत् सर्वं न इति भगवतः कृपया एतत् शरीरादिकं प्राप्तम् भगवतः कृपा अस्ति अतः अस्माकम् एतत् सर्वं शरीरम् अस्माकम् इदानीम् अस्माकं सर्वेषां कृते संस्कृतभाषायां तत्र रुचिः अस्ति संस्कृतभाषायाः वयं पठनं कुर्मः भगवतः कृपा भगवतः कृपया एतत् सर्वं स्वभावम् एतत् सर्वं शरीरं स्वभावम् एवं सर्वं वयम् प्नुमः अस्तु तावत्पर्यन्तं सह उक्तवान् अग्रिमे सह वदति हा यतः आरभ्य गीताभगिनी भवती पठति वा अतः तदीयसृष्टेः ततः आरभ्यगिनी अतः अतः तदीसृष्टिः उपकाराय तन्नाम लोकोपकाराय स्यात् अस्माकं समग्रमपि जीवनं यदि अस्मासु सत्वं सत्वम् सत्त्वं सत्त्वं स्यात् तर्हि रूपान्तरप्राप्तिसमये उत्तमं स्वरूपं प्राप्येत् hmm. अन्यता तु जीवनस्य न किमपि प्रयोजनम् अस्य hmm. समाप्तिविषये आडम्बरादिचिन्तनं सर्वथा व्यर्थम् अग्रिमे hmm. पठतु अग्रिमे अपि पठतु अनन्तरं hmm. प्रथमं परिच्छस्य विषये वदतु अग्रिमे अपि एकवारं पठतु धैर्येण okay. अप्रियमपि hmm. सत्यम् उक्तवतः hmm. बुद्धम् अन् मन्त्रिणः मुखम् दृष्टवन्तः अन्ये मन्त्रिणः mm -hmm. राजा क्षणं यावत् विरम्य mm -hmm. पुनः अवदत् mm -hmm. मन्त्रिवर्य भवता Hmm. स्पष्टवादिताम् hmm. hmm. आश्रयता एक एकनिमिषं भगिनी अय्यो भवता स्पष्टवादिताम् आश्रय गेटिङ्ग् दट् लैन् बहिनी बहिनी न दृश्यते वा अस्तु अस्तु अन्यकोपि अन्य कोऽपि पठेत् वा जयन्ती भगिनी भवती आमामां पठतु पठतु भवता भवता स्पष्ट भवता स्पष्टबादिता श्रयथा यत् उक्तं तत् युक्तमेव मया किं करणीयं किं न करणीयम् इति सम्यगेव स्मारितम् भवता इति अधुना वदतु अतः तदीयसृष्टे पश्यन्तु तत्र शिलाखण्डस्य विषये किमपि भूतकालविषये वा भविष्यत्काल साम्प्रति अस्माकं पुरतः शिलाखण्डः अस्ति परन्तु भविष्यत्काले किम् भविष्यति एतत् सर्वं वयं न जानीमः तथैव अस्माकं देहविषये अपि वयं न जानीमः श्वः अपि किं भवितुमर्हति तत् वयं न जानीमः अतः मन्त्री वदति तदीयसृष्टेः उपकाराय तन्नाम लोकोपकरा लोपो लोकोपकाराय अस्माकम् समग्रम् जीवनं स्यात् हाँ? एकम एकम वाक्यं स्वीकृत्य वदति वा भगिनी प्रयत्नं करोति वा अस्माकं जीवनं किमर्थम स्यात् इति वदति भवता स्पष्ट स्पष्टवायिता वासयता तद्युक्तमेव न न अत्र वाक्यशः भगिनी लोकोपकाराय प्रथमम् वाक्यम् अस्माकम् जीवनं लोकोपकाराय स्यात् अन्येषाम् कृते अन्येषाम् उपकारम् करणीयम् अस्माकं जीवनं किमर्थम् स्यात् लोकोपकाराय परोपकाराय स्यात् य इति भवेत् इति भवेत् इति मन्त्री वदति अस्मासु सत्त्वं स्यात् तर्हि रूपान्तरप्राप्तिसमये उत्तमं स्वरूपं प्राप्यते इत्युक्ते तत्र अन्यथा तु जीवनस्य न किमपि प्रयोजनं तज्जीवने महत्त्वपूर्ण किमस्ति अस्माकं भव्यं स्रकम भवे चिंतन मावत्म जीवनम तवत्पर्य परोपकारा लोकोपकारा उपकार उपकार परेशा कृते साय्यम करीय तरशता हाँ अस्कम जीवन से कि प्रयोजन अस्कम जीवन न भवेत, तदा प्रयोजनमेव नास्ति अस्य अस्य समाप्तिविषये आडम्बरादिचिन्तनं सर्वथा व्यर्थम् आडम्बरादि इत्युक्ते व्यर्थचिन्तनम् समाप्तिनन्तरं किं भवेत् यदा अहं न भवामि तदा मम बान्धवः किं करिष्यन्ति मम पुत्रः किं करिष्यति मम पुत्री किं करिष्यति एतत् सर्वं व्यर्थचिन्तनम् इति सः वदति तस्य चिन्तनं सर्वथा व्यर्थम् कस्य चिन्तनम् भवेत् मम एषः जीवनम् मम एतज्जीवनम् तत् अन्येषाम् उपकाराय परोपकाराय भवेत् इति चिन्तनम् अतः अनन्तरम् किम् भवत् okay. अप्रियम् सत्यम् उक्तवन् उक्तवतः वृद्धमन्त्रिणः मुखम् दृष्टवन्तः अन्ये मन्त्रिणः इत्युक्ते अन्ये मन्त्रिणः आसन् ते अपि वृद्धमन्त्रिणं प्रति दृष्टवन्तः तत् अप्रियमपि शरणं हा सः सत्यम् उक्तवान् खलु राजा किं चिन्तितवान् मम स्मारकं भवेत् जन जनानां पुरतः मम स्मारकं भवेत् इति परन्तु वृद्धमन्त्र वृद्धमन्त्रिणः वृद्धमन्त्रिणः वचनानि कानि अप्रिय एव परन्तु सत्यमेव अप्रियवचनानि किन्तु सत्यवचनानि अप्रियं वचनं परन्तु सत्यं वचनं सह उक्तवान् अतः सर्वे दृष्टवन्तः तं तस्य मुखं दृष्टवन्तः अनन्तरं राजा अपि चिन्ता राजाक्षणं यावत् विरम्य पुनः अवदत् हा अधुना जयन्ती भगिनी में वदतु राजाक्षणं यावत् विरम्य पुनः अवदत् किम् राजा इति अन्तिमम् राजा क्षणं यावत् विरम्य पुनः अवदत् मन्त्रिवर्य भवता पष्टवादिताम् आश्रयत यत् उक्तं तत् युक्तमेव मया किं करणीयम् किं न करणीयम् इति सम्यक् स्मारितं भवता इति राजा तत् क्षणम् एव उक्तवान् यावत् विरम्य किञ्चित् समयं मौनं साधित्वा तदनन्तरम् उक्तवान् मन्त्रिवर्यः मन्त्रिवर्यः यदि उक्तं भवता सर्वे उक्तम् स्पष्ट स्पष्टवादिताम् आश्रयता यत् उक्तं तत् युक्तमेव सत्यमेव इदानीम् अहम् अहं सम्यक् ज्ञातवान् यदि अहं यत् अहं करणीयं यत् न अह अहं न करणीयम् इति सम्यक् अहम् जानामि इति राजा उक्तवान् इत्युक्ते अत्र सारांशरूपेण वयं वक्तुं शक्नुमः भगिनी अस्माकं जीवनस्य उप उपयोगः किमर्थ किमर्थं भवेत् अस्माकं जीवनस्य उपयोगः अन्येषां सहाय्यकारी अस्माकं जीवनं भवेत् इदं शरीरं तत्र अनन्तरं किं भवेत् मम जीवनानन्तरं मम स्मारणं वारं वारम् अहं कारयामि इति व्यर्थचिन्तनम् आडम्बरम् इति व्यर्थचिन्तनम् अस्माकम् अधिकारः अधिकारः कर्मणि एव अस्ति फलेषु नास्ति अतः अद्यदिनस्य अस्माकं पाठः एवमस्ति एषः श्लोकः सङ्गोस्तु कर्मणि माते सङ्गोस्तु कर्मणि इति अस्माकम् अद्यदिनस्य पाठस्य नामकरणम् अधुना ना, श्लोकं पठतु भरतमहोदयश्लोकं पठतु किमस्ति श्लोकम् अत्र श्लोकः कः कर्मण्ये पठतु भरतमहोदय मा फलेषु कदाचन मा कर्म फल कर्मफलहेतु भूर्भा ते सङ्गोस्तव कर्मणि अस्माकं पाठस्य नाम मा ते सङ्गोस्तु कर्मणि एव हा अधुना तत् रक्तवर्णीय यदस्ति तदपि पठतु कर्मणि एव कर्मणि एव अधिकारः ते मा मा कदाचन फल हू। अस्तु फलेशु कदाचल संग अस्त अकर्मण तक कर्मफल हेतु कर्म फल अपेक्षा मा भेद फलापेक्षा फलस्य किम प्राप्ति? फल फल मा मास्तु. आ, मा कर्म अपेक्षा भवेक्षा मलु माते संगह अस्तु अकर्मण अहम कार्यमेंव न कौ मम निधनानन्तरं मम मरणानन्तरं किमपि न अवशिष्यते इति विचिन्त्य अहं किमपि कार्यं न करोमि तत् सत्यमस्ति वा तत् योग्यमस्ति वा भारतमहोदय नास्ति तत् योग्यं नास्ति तत् मम सङ्ग इत्युक्ते अटेच्मेण्ट् तत्र माते सङ्ग अस्तु तत्र फलेषु मम आसक्ति न भवेत् कर्मणि एव मम अधिकारः फलेषु नास्ति फलं आ, न फलेषु न, न इच्छामि हा न त, तस्य फल फलेच्छा मा इति फलेच्छा मा भवेत् मम सत्कार्यं सत्कार्यं जीवने सत्कार्यं सत्कार्याणि कर् करणीयानि एतत् सर्वं मम चिन्तनं भवेत् परन्तु अनन्तरं मम कः लाभः एतत् सर्वं चिन्तनं मास्तु हाँ. अधुना जयन्तीभगिनी वदतु श्लोकस्य विषये अस्माकं कर्तव्यं कर्म एव कर्म एव वयं करणीयं निर् निष्फलार्थं कार्यं करणीयं फलम् उद्दिश्य कार्यं न करणीयम् इति एतत् श्लोकं सूचयति भगिनी अतः तत् राजयचिन्तनमस्ति नृपस्य यत् चिन्तनमस्ति तत् योग्यमस्ति वा भव्यस्मारकनिर्माणं नास् निधनानन्तरं वारं वारं मम स्मरणम् एवं चिन्तनं न भवेत् अस्तु अत्र श्यामला भगिनी अपि अस्ति अनन्तरं रमणीभगिनी अपि अस्ति क्षम्यताम् अहं न दृष्टवती रमणीभगिनी वक्तुम् इच्छति वा श्लोकस्य विषये वा कथायाः विषये आं भगिनि हा फलमुद्देश्य वयं कार्यं न करणीयं विषये फलप्राप्तेः विषये चिन्तनं न भवेत् कर्मणि एव अस्माकम् अधिकारः सत्यं श्यामला भगिनी वदति वा भगिनी Uh, without mm -hmm. expecting anything in return mm hmm so we, uh, we have to do mm -hmm. the work uh, without expecting any uh, fruits any mm -hmm. fruit in the uh, further in the future etc mm -hmm. we have to just yeah. do the work uh, yeah. uh, according to that we will get fruits in our life सत्यं सत्यम् इतोपि कोऽपि वक्तुमिच्छति वा अगस्टमहोदय तत्र ध्वनेः समस्या अस्ति इति उक्तवान् भारतमहोदय वक्तुम् इच्छति वाकारः सदा स्मर स्मरन्ति का आवश्यकता उत्तम उत्तम उत्तम त्र वोकार परोपकार परोपकार कूँ तदा जनाव विस्मर नव्यस्कर्माण करीय आवश्यकता उत्तम उत्तम इतने अन्य कोऽपि वक्तुमिच्छति वा राधा भगिनी वक्तुं शक्नोति वा मम ध्वनि श्रूयते वा इदानीं श्रूयते भगिनी मम एष जीवनं परोपकार्यं कृते उपयोगं करणीयम् अथवा जीवनस्य व्यर्थः अस्ति व्यर्थता भवति सर्वं माते सङ्गोस्तु अकर्मणि एतत् सर्वं वयं कर्मणि एव तव अधिकारः मा फलेषु कदाचन ओके सो अस्माकं तत्र कर्तव्यं वि हाव् अ रैट् टु वर्क् नाट् नोट् अ फ्रूट् नाट् एक्स्पेक्ट् अस्माकम् उद्देशफलप्राप्ति इति न भवेत् अस्तु इतोपि तत्र अकर्मणि इत्युक्ते इनाक्षन् न भवेत् वि शुड् नाट् गेट् इन्क्लैन् टु बि इक्टिव् अहं कर्मं कर्म कर्मकार्यमेव कर्म न करोमि इति न भवेत् hmm? माते सङ्गोस्तु अकर्मणि इति hmm? hmm. hmm. तथा अस्माभिः करणीयम् इति सर्वम् अस्ति अस्तु अधुना समयः जातः वयं शान्तिमन्त्रेण समापयामः रमणीभगिनी वदति वा शान्तिमन्त्रम् रमणीभगिनी शान्तिमन्त्रं वदति वा सर्वे भवन्तु पिनः सर्वे सन्तुमये याः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभा अस्तु ॐ शान्ति शान्तिशान्तिः अस्तु पुनर्मिलामः